षडनर्था महाराजा कच्चित्ते पृष्ठतः कृताः निद्रालस्यं भयं क्रोधो मार्दवं दीर्घसूत्रता वैशम्पायनवाच ततः कुरूणां वृषभो महात्मा श्रुत्वा गिरो ब्राह्मणसप्तमस्य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 नारदवाच एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे स सुसुखी शक्रस्य इति स लोकताम् इति श्रीमहाभारते सभापर्वणि लोकपालसभाख्यानपर्वणि नारदप्रश्नमुखेन राजधर्मानुशासने पञ्चमोऽध्यायः